Om Vivada तस्य यज्ञस्य हविरधिरित्यसोजो देवोदिविषद्भयित्याह बृहस्पतिना चैवास्य प्रजापतिना च यज्ञस्य रक्षागुं शिवावेदपशुगुं सचं देयदेकदेवत्य आलब्धो भोजान्भवधिस्याः सेहनिभोगर्भयित्याहदेवत्रैवै हा नाङ्गमयति रक्षसामवहत्याहावत् भवेत्या ब्रह्मणैवै न ृथिवेभ्यं चातिरिक्तं चमयदिनार्ति भस्मनाभिहति यदवद्यनावज्य नावज्येत् पुरस्तान्नाभ्यान्यदवद्यत्पुरस्ताद्वेः प्राणमुपरिष्टादपानो रावानेवस्यावद्यति विष्णवेष्टादुह ज्ञस्यातिरिच्य तेजः पशोद्भौमायातिरिक्तस्येवप्त्वा त्यस्पीडयिष्ट्वासीजाषिपानःसहस्रम् ते निजितो विश्वमारा उपो ते अम्भो मन्त्रमयामि यस्य देवदधि िटादय मनः प्रजापदय स्वाहा गिक्किटादे स्वाहा गिटादय चक्षुः सौर्याय स्वाहा गिटा च श्रोच्छन्द्या वा्याय स्वाहा गः किादय वाचकुं स्वाहा त्वन्धुले जा वसने वशा च सग्रज त्वा शा त्वम् वशिने गच्छ देवान् सत्याः सन्धुजमानश्च कामाः ज्येष्ठानुल्यागुंसेतोऽर्धान्तरिक्षमुपदिक्षस्वधाः तान्तुम् तन्मन्दजसौ भानुमम् विहज्यो जुष्मतः पथो मनसोऽहमिरसि प्रजापदेर्वन्नो गात्राणाम् दैवायु प्रभाजो भूयास्म इमे वै सहास्ताम् देवायुर्व्यभमलधाता ग्निरक्लं प्रजापतिराष्टाकपालमवत्तेनैवैनामग्निरक्लेणात्तस्मादव्यमष्टाकपालं गुरस्तान्नेन वैनामधिष्ठेयामधने तस्मा स्वामप्राजनयदग्निरग्रसत तस्मादग्ने स्वामीजाय जनयच्चवत तस्मात्सारस्वतीयक्रजापनिरग्ने रजनिरक् तस्मा, तस्मा, तस्मा प्राजावत्या सा वा एषा सर्वदेवत्या रदावशावालभेदभोतिकामो वायुवेच्छा देवता दे दा दे वायुमेवश्वेन भागभेदेन सदेवणम् ङ्गमय निद्यामा रथजामालभे दृषमानः प्रतिष्ठा कामो दिवदेवास्मे पर्जन्यामरिष दिव्यस्यामोषधजोरोहं द्विमध्वगमस्य सस्यं भवत्यग्ने सोमे रामालभेदयः कामदे तान्नवान्नादस्कामित्यग्निवान्नमवरुन्धे सोमे नान्नाद्यमन्नवान्नादो भव संवाचं न भवेद् भागवे सरस्वती सरस्वती भागे धामति सैवास्मिन् वाचं दधाति प्राजापत्या मालभेदयः कामनेता न भिजदमखिल देदमिदप्रजापतिः सर्वा देवता देवताभिरेव न भिजदमखिलिवाजिलयोपाकरो दिवारो देवैनामध्यालभतागोता कामायत्रेत्याहारेवैतकाराकारेण वैन्द्राम्या पशव But I'm there धिक्यकारं जियमाणेहो निजेवं देव वैनागं सुवर्गं लोकं गमयति त्वं दुरीया वशनेवशासेत्याह देवत्रै वै नाङ्गमयति सत्यासं यजमानस्य कामादित्याहेशवेकामा यजमानस्य गजनाहारदृशं गच्छति तस्मादेव ैव वैनाः लोकेश प्रतिष्ठापयतिविदेत्याह स वर्गदेवास्मे लोके ज्योतिन्दधान्दोभानुमन्मिहेत्याहे माने वास्मे लोकान् ज्योतिष्मदः कलाच्चमणम्बद जोगवामवत्याहयलेवल्बन् मृगजयदश्रेवैषान्भव जनजाले विद्याहमानं यो मे प्रजास्तायैवाज्याकृते मनसो हविरसेद्या हस्रगाकृत्यै गात्राणां दे गादृभासो श्रीवादे तस्यामेवाजयवज्यदालब्धायामभ्रो भवयामभ्यस्या तप्सु वात् सर्वाहं वा प्रास्नीयान्यसु प्रवेशदे ज्ञवेषसं कुर्यात् सर्वामेव प्रास्नेदानीं नयमेवात्मान् धत्तेसा वादेशात्रगाणामेवावरुद्धासदस्तानो गृहमे जनस्त ेषामेवैषाप्तां चित्तिश्चाकोच्चाकोचिश्च विज्ञानम् च विज्ञानम् च मनश्च भोर्नमासश्च बृहच्च रथन्तरम् च प्रजापदुर्जया इन्द्राजवृष्णे प्रायच्छतुग्रः कृतराज्यशुतस्मै मिषः समनमन्तसर्वाः समुग्रस्य हिह विजो बभूपदेवासुराः सङ्गत्ताः स प्रजापत्तस्माजताञ्जयान् प्रायच्छत्तानज होत्तदो वेदेवासुरान जय न जयम् तज्जानयत्वज्ञ स्पर्धमानेनैदे होगव्याजयत्येवतामृदनाम् अग्न्यर्भोदा रामदेव समावत्य पादुरन्तरिक्षस्य दिवश्चन्द्रमा नक्षत्राणां ष्णुः पर्वतानाम् मरुतोगणानामधिपतदस्ते मा बन्धुमिद पिता परेस्तदामः इह मावताम् अस्मिन् ब्रह्मन् अस्मिन् शब्दे स्यामाशिषस्याम् पुरोधायामस्मिन् ब्रह्मन् अस्याम् देवहूत्याम् देवा वी यद्यज्ञे कुर्म तदसुरा न कुर्म ते देवा एतानभ्यातानानपश्यन्तानभ्या कर्म सेदार्थराणान्न ददार्थ समफलं तस्माद्याताना वयेः स्वदेवाय प्रजापतिर्जयान् प्राजस्मा जया प्राजापत्याभृद्धे राष्ट्रमादद्याहाष्टभृतागं राष्ट्रभृत्वं दे देवा अभ्याताने रसुरानध्यानवर्जयैरजयन् राष्ट्रभृद्धे राष्ट्रमादयद्देवा अभ्याताने रसुरानभ्याङ्गलभद्राताय ष्टेराष्ट्रमादद्राष्टं राष्ट्रो देवाभवन्वरा सुराजोऽ नुज्ञानम् ध्यातनुते जने निराष्ट्रभिे राष्ट्रमादत्ते भवत्यात्मना बलाः स्य भ्रातृजो भवति धामार्गन्धर्वस्तम् वा दुदायस्सुश्रोर्जरश्चन्द्रमागम् धर्मस्तत्राजो भजोगन्धर्वस्तस्य सामान्यसो बन्धनकृशिरोपिष्टव्यचातो गन्धर्वस्तस्यापो सरसो मुदा भुवनस्य पते यस्य तपुपरिगृहाय च सरो रास्वाज्ञानिकुम् राजस्पोषकम् सुमेर्दगुम् संवत्सरेणागस्वस्तिम् परमेश्वत्युर्गं धर्मस्तस्य विश्वमप्सरसोगं धर्मस्थस्य विद्युतोण काशी कामोगं धर्मस्तस्याधयोसरसोजगं देनादं ब्रह्मक्षत्रं वा दुतात्रं पञ्च स्वाहा समाभुवनस्य पदे यस्य तमुपरिहादिह च ब्रह्मणे स्महे क्षद्राजमहि ष्ट्रयामाय होदौ या राष्ट्रम् वेदाः स्टतो राष्ट्रेणैवास्मि राष्ट्रमवरुन्धे राष्ट्रमेव भवत्यात्मने होदौ जा राष्ट्रम् वैराष्टभतो राष्ट्रम् प्रजा राष्ट्रम् पशवो राष्ट्रैयच्छ्रेष्ठ भवति राष्ट्रेणैव राष्ट्रमवरुन्धे सजाता राष्ट्रेणैवास्मै राष्ट्रगुं सजातानवरुन्धे ग्राम्येव भवत्यधिदेवनेज होत्यधिदेवनदेवास्मै सजातानवरुन्धे तेनवरुद्धामुपतिष्ठन् नैरथमुखगोजस्कामस्य होदव्याष्ट्रवो जोरुवोजसैवास्मा वोजो वरुन्धवोजस्येव भवतिर राष्ट्रादवभूतस्या तस्मै होदव्याजाम राष्ट्रं न कल्पते स्वरथस्य दक्षिणं चक्रं भ्रमेत्यनागेमभिजुह यादाहुजे देवास्य कल्पय जिता अस्य कल्पमाना राष्ट्रमयकल्पते सङ्ग्रामे संयत्रे होद्या राष्ट्रम् राष्ट्रे खलु सङ्ग्रामं वा आन्धुकङ्गारा देवा प्रतिवेष्टमाना अमित्राणामस्य सेनां प्रतिवेष्टयन् द्विजमुन्मार्जेत्तस्मै हादौजागं सर्वाक्षरसो वादे तमुन्मादयन्ति युन्मार्जत्वे खलु सरसयग्राहष्टहृतस्तस्मै स्वाहादाभ्य स्वाहेति जुहोदितेनैवैनाहान् क्षमयति नै यग्रोधौ लम्बरवाक्षमिते भवत्ये देवै गम्भर्वाक् सरसा गृहास्वदेवैनायतने शमयत्तभितरता ृणुते स्वगृहोणं निरृतिगृहेण निरृत्याग्राहयति जगद्वाच क्रोरं करोति वाच देवैनं क्रोरेण प्रविष्टदि राजकार्तिमार्चति जस्य कामय तान्भुवनस्य हरवारितवः प्रजापतिनैवा स्यान्नाद्यमादायत्तवोः स्म अनुप्रयच्छन्ति बन्धुरपभो तस्यात्तस्थलेऽपसाय ब्रह्मौ गणं चतुःसदा भक्त्वा दस्मे हातरुजा वक्ष्मेहाष्पभृतो भक्ष्मस्थलम् बष्मदेवैनम् बष्मसमानानाहम् गमयति चतुःशरावो भवति चिक्ष्मे वा भवति रुचमेवास्म्यन्दरतित्ष्माहम् भवति मे झत्वाय चत्वार आदिशया प्रास्म्यन्दिल्सा मे वा देविका निर्ववेत् प्रजाकामश्चन्दागं शिवैदेविकाच्छन्दागं श्रेखरु प्रजाभिरेवस्मै प्रजाः प्रजनयति कुश समन्धान् देवास्मा अनुमतिर्मन्य राजे रागा कृषने बाले जनयति प्रजासेव प्रजादासगुप्पाचन्दसात्ये कालेव निर्ववेत्छन्दागम् छन्दायं सेव खलुवास्मि पशोन् प्रजन यदि प्रथमं भातारङ्गरोदित्रैव वायत्तन्मेवास्मान्य राधे राकाप्रसिनेवादे जनयति पशोनेव प्रजातां गृह्वाः प्रतिष्ठाभयत्रेतादेव निर्मवे ग्रामकामश्चन्दायं शिवे देविकाश्छन्दायं सेव खलु भे ग्रामश्चन्दोभिरे multimodal- 福祖籍 ये ग्राममवरुन्धे मध्यतो मध्यत देवेन ग्रामस्य दधात्येतादेव निर्मवे जो गामयान्दालं ज्ञानपनमे छन्दागं शिवे देविका छन्दागं श्रि खलु पादे तन्नोपमं दिल्यज्ञानोपनमदिप्रशमं घादारं करोति मुखदेवस्मै छन्दागं च दधात्युपत्येकादेव निर्भवेदी जानच्छन्दागं श्रिवे देविकायानुरा खलु जग्लवैतादेव निर्ववेद्यं मेधानो वनमेच्छन्दां शिवे देविकाच्छन्दागुं शिखनुवादेजं मेधानो छन्दागं श्रीधातुं मेधा नेविरे वास्मिन् भवन्ति ो नमा वा स्याचले वा ये मोहो नमास्य न मिष्टं प्रमाधाताष्टोमसमोऽष्टाक्षरागायध्येकादश द्वादशादिवादशाक्षरायष्टोद्धादावशक्काल च तद्वै देव सर्वाणि च संघागुंसि सर्वाश्च देवतावशक्कालस्तायत्सह सर्वाणिश्वरायद्वे प्रथमे प्रदहन्त्यस्मि कामाय निरुप्यन् दैतमेवाभिरुवारा प्रतिजाने ह्यस्मान् स्वावेशोऽ अनमेव भवानः गत्वे महे प्रति तन्नो दुषस्व सन्नदे सिद्धिपदे सञ्च विश्वदे त्याः क्षेम उदलोगे वरण्माजम् वाद स्वस्तिभिः सदा नः यत्सादम् प्रातरग्निहोत्रम् जहो ज्याहृतेष्टगा एव उपधत्ते रजमाणो होरात्रा विवादे ेष्टगाय आहितान्यत्सायं राजुहत्येवाप् त्वेष्टगाः खलु वैवा स्तोपतिर्यलहुत्वा वा स्तोपतेजं प्रया याद्युद्रजेन वा स्तोष्पतेजं जुहोलिहां शमयति नार्तिमार्छलयजमानो यद्युक्ते जुहजाद्यथा प्रजादेवास्तामाहुर्यजुहोति राद्रिगेव जुहयाद्यथा क्षयमाहुर्यजुहोति रादृगे पदतहु नमस्त्य वा क्षिणो युक्तो भवति सदेव त्वा जयद्भुत आदध्यादृत्यं ग्रहानं वा संरक्षाप्य प्रयायान्यथा यज्ञवादहनं वाद ृगे मतदगन्धेरण्यो समारोहयद्धे स वा अग्नेश्वजैव समारोहयद्योः समारोढ न सेतुकस्याग्नस्ये पुनराधेयस्या निजाते अग्नेयातनोस्तरेत्या दृशेको अस्मेवत्या समिषोद्देश्यस्मद्रियक्सम्य मे है सदा पञ्चसोमनो वशो देवादुम् नमरामहे प्रियस्तोः क्रो वनस्पतिः ब्रह्मादेवानाम् पदवेः कवेनामृहर्विप्राणानाम् मृहषो मृगाणा श्यानादिर्भ्राणा विश्वनागम् सोमः पवित्रमध्ये तिरेभन् आविश्वदेभगम् सद्वतिगम् सोक्तैरद्यावृणेमहे सद्यसमगम् सवितारम् आसत्येन रजसा वर्तमानो निवेशयन्न मृतम् मर्त्यम् च हिरण्ययेन च विधानेवो जातिभवनादि पश्यन् यथा नो अजिः करत्वभ्यो यथा गमे यथातोद्रियम् मानस्तोकेतन जयमान आयुषुमानो गोषुमानोऽश्वेषु वीर्यः ष्मन्तो नव सा विधेमते रक्षमाणा वावदतो अभ्रयस्तेवघोषाःभिर्वावदद्भिरस्मन्मया जनः नाव्यस्मतिरभिकनिक्रदग्गा उत प्रास्तौ दुच्छ विद्वागुम् अगायत् न्द्रसा निशिगम् नजिगम् सजयित्वा नगुम् सदासहम् बलहिष्ठमो तदे फलसाषे पुरो दशत्रो इन्द्रेष्ठस्ते सुष्म इहराजिरस्तु इन्द्राफल दक्षिणे नाम सोऽपदे नाम च रेवनाम् त्वयम् सुतस्य पीतरे सुक्रतो भुवस्तमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु जग्भिजः भुवो विवेकश्चनो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे मित्रस्य चर्षणे धृतश्रवो देवस्य सा नसिम् सत्यञ्चित्रश्रवस्तमम् मित्रो जना ने यादयति प्रजानन् मित्रोदाधार पृथिवे मुदज्या मेत्रकृष्णेन निमिषाभिचष्टे सज्जायः भुजम् धृतवद्विधेम प्रथमित्रमर्तो अस्तु प्रयस्वा निजस्त आदित्य शिक्षते व्रतेन न हन्यते नीजते कोतो नै न मुह्मा अस्मात्यन्तितो श्च असित्ते यत्तमधर्मा युजोऽपि ममा नस्तस्मादेन सो देवदीवसो यद्विपूर्णदेवी यद्वाघा सत्यमुदयन्न विद्मा सर्वाताविष्यसिदेव देवासा ते श्याम वरुण प्रयासः